काशी विश्वनाथ गङ्गे हर हर महादेव शम्भु काशी विश्वनाथ गङ्गे हर हर, हर, हर हर महादेव शम्भु काशी विश्वनाथ गङ्गे हर हर महादेव शम्भु काशी विश्वनाथ गङ्गे हर हर महादेव शम्भू काशी विश्वनाथ गङ्गे हर हर महादेव शम्भु काशी विश्वनाथ गङ्गे